ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता दत्त्वा क्रूराय सुतनुम् तामाहुकसुताम् तदा सङ्कर्षणद्वितीयेना हतौ कंससुनामानौ मया रामेण चाप्युता भये तु जरासंधे जरासन्धे समुद्यते मन्त्रोऽयं मन्त्रितो राजन् कुलैरष्टादशावरैः अनारभन्तो निघ्नन्तो महास्त्रै शत्रुघातिभिः न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम् तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ नामभ्यां नाम हंसडिम्भकावशस्त्रनिधनावभौ तावुभौ सहितौ ताव वीरौ जरासन्धश्च वीर्यवान् त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर अथ हंस इति ख्यातः कश्चिदासीन्महा नृपः रामेण सहतस्तत्र सङ्ग्रामेष्टादशावरे हतो हंस इति प्रोक्तमथ केनापि भारत तच्छ्रुत्वा यमुनाम्भस्य मज्जत विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे इत्येताम् मतिमास्थाय निधनम् गतः तथा प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत तौ स राजा जरासन्धः श्रुत्वा च गतौ पुरम् शून्येन मनसा प्रययौ भरतर्षभा ततो वयममित्रघ्ना तस्मिन्प्रतिगते नृपे पुनरानन्दिनः सर्वे मथुरायां वसामहे यदा त्वभ्येत्यपितरं सा वैराजीवलोचना कंसभार्याजरासन्धं दुहितामागधं नृपं चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता पतिघ्नं मे जहीत्येवं ततो वयम् महाराजा तम् मन्त्रम् पूर्वमन्त्रितम् संस्मरन्तो विमनसो व्यपयाता नराधिप पृथक्त्वेन महाराज संक्षिप्य महतीम् श्रियम् पलायामोभयात्तस्य स सुतज्ञाति बान्धवाः इति सञ्चिन्त्य सर्वे स्म प्रतीचीम् कुशस्थलीम् पुरीम् रम्याम् रैव तेनोपशोभिताम् ततो निवेशं तस्याम् च कृतवन्तो वयम् नृपा तथैव दुर्गसंस्कारम् देवैरपि दुरासदम् स्त्रियोऽपि यस्याम् युद्धेयुः किमु वृष्णिमहारथाः